अङ्गम् हरेः पुलकभूषणमाश्रयन्ति भृङ्गाङ्गनेव मुकुलाभरणम् तमालम् अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवतायाः धा मुर्विदधती वदने मुरारेः प्रेमत्रपा प्रणिहितानि गता गतागतानि माला महोत्पलेय महोत्पलेया सामेश्रियं दिशतु सागर संभवाया मीलिताक्षमधिगम्यमुदा मुकुन्दम् आनन्दकन्दमनिमेषमनङ्गतन्त्रम् आकेकरस्थितकनीनिकपक्ष्मनेत्रम् भूत्यै भवेन्म भुजङ्गशयाङ्गनाया बाह्वन्तरे मधुजितश्रितकौस्तुभेया हारावलीव हरिनीलमयी विभाति कामप्रदा भगवतोऽपि कटाक्षमाना कल्याणमावहतु मे कमलालया म्बुदालि ललितो रसिकैटभावे धाराधरे स्फुरति या तडिदङ्गनेव मातुः समस्त जगताम् महलीय भद्राणि मे दिशतु भार्गवनन्दनायाः प्राप्तम् पदम् प्रथमतः खलु माङ्गल्यभाजि मधुमाथिनि मन्मथेन मय्या पतेत् तदिहमन्थरमीक्षणार्थम् मन्दालसं च मकरालय कन्यकायाः विश्वामरेन्द्रपदविभ्रमदानदक्षम् आनन्दहेतुरधिकम् रविद्विषोऽपि निषीदतुमीक्षणमीक्षणार्थम् इन्दीवरोदर सहोदरमिन्दिरायाः इष्टाविशिष्टमतयोऽपि ययादयार्द्रदृष्ट्या त्रिविष्टपपदम् सुलभम् लभन्ते दृष्टिः पुष्टिम् कृशिष्ट मम पुष्करविष्टरायाः दद्याद्रयानुपवनो द्रविणाम्बुधारा अस्मिन्न किञ्चन विहङ्गशिशो विषण्णे दद्यादयानुपवनो किञ्चन विहङ्गशिशौ विषणे दुष्कर्म चिराय दूरम् नारायण ना प्रणयिनी नय नाम्बुवाहः गीर्देव देति गरुड ध्वज सुन्दरीति शाकम्भरीति शशिशेखर वल्लभेति सृष्टिस्थिति प्रलय केलिषु संस्थितायै तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्ये श्रुत्यै नमोऽस्तु शुभ कर्म फल प्रसूति रत्यै नमोऽस्तु रमणीय गुणा नमायि शक्त्यै नमोऽस्तु शतपत्र निकेतनाय पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभाये नमोस्तु, नमोस्तु नालीकनिवाननायै नमोऽस्तु दुग्धोदधिजन्मभूम्यै नमोऽस्तु सोमामृतसोदराय नमोऽस्तु नारायणवल्लभाये नमोऽस्तु हे माम्बुजपीठिकायै नमोऽस्तु भूमण्डलनायिकायै नमोऽस्तु देवादिदयापराय नमोस्तु, नमोस्तु, देवादि नमोस्तु शारलायुलवल्लभाय नमोस्तु देवी भृगुनन्दनाय नमोऽस्तु विष्णुरुरसि स्थितायै नमोऽस्तु लक्ष्मी कमलालयाय ी कमलेक्षणाय नमोऽस्तु भूत्ये भुवन प्रसूत्यै नमोऽस्तु देवादिभिरर्चिताय नमोस्तु नन्दात्मज वल्लभाय सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदान विभवानि सरोक्षी त्वद्वन्द्वनानि दुरितोद्धरणोद्यतानि मामेव मातरनि शोकनयतु मान्ये यर्कटाक्षसमुपासनाविधिः सेवकस्य सकलार्थसम्पदः संतनोति सन्तनोति वचनाङ्गमानसैः त्वां मुरारिहृदयेश्वरीं भजे सरसिजनिलये सरोजहस्ते धावणतमां शुकगन्धमाल्यशोभे भगवति हरिवल्लभे मनाज्ञे त्रिभुवन त्रिभुवनभूतिकरि प्रसीद मह्यम् भगवती हरिवल्लभे मा ये त्रिभुवनभूतिकरि प्रसीद मह्यम् दिग्धस्थिभिक्कनकुम्भमुखावसृष्टर्वाहिनी विमलचारु जलप्लुताङ्गी प्रातर्नमामि जगतां जननी अशेषलोकाधिना छृहिणीम् अमृताब्धिपुत्री कमले कमलाक्षवल्लभे त्वं करुणा पूरतरङ्गितैरपाङ्गी अवलोकय प्रथमं पात्रम् अकृत्रिमं दयायाः स्तुवर्ति ये स्तुति विरमोभिरवधु त्रयीमयी त्रिभुवनमातरं रमा गुणाधिक गुरुतरभाग्यभागिनः भावद्विते भुवि बुधभाविता